श्रीहरये नमः अथ चतुर्दशोऽध्यायः ब्रह्मोवाच नौ मीड्यदे प्रवभुषे तडिदम्बराय कुञ्जावदं सपरिभिच्चलसन्मुखाय वन्यस्रजे लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय अस्यापि देववपुषोमदनुग्रहस्य स्वेच्छामयस्य न तु नेसे महित्ववसितुं मनसान्तरेण साक्षात् तवैव किमुतात्मसुखानुभूते हे ज्ञानप्रयासमुदपास्य न जीवन्ति सन्मुखरितां भवदीयवार्तां स्थाने स्थिताश्रुतिगतां तनुवाङ्मनोभे ये प्रायसो जितजितोऽप्यसितैस्त्रिलोक्यां श्रेयश्रुतिं भक्तिमुदस्यते विभो श्यन्ति ये केवलभूतलब्धये तेषामसौ क्लेशलये वशिष्यते नान्यथा स्थूलतुषावघातिना पुरेकभूमन् बहवोऽपि योगिन स्तदर्भिते का निजकर्म लब्धया विभुत्य भक्त्यैव कथोपनीतया प्रभेतिरेञ्जोच्युत ते गतिम् परम् तथापि भूमन्महिमा गुणस्य ते विभोतुम् अविक्रिया स्वानुभवातरूपतोनन्यभोत्यात्मतया न चान्यथा गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य कैशिरेस्य कालेन यैर्वा सवक्के सुकल्पैर्भूमां सवक्येमिहिद्युपासहा तत्तेऽनुकम्पां सुसमीशमान भुञ्जानेव आत्मकृतं विपाहं हृत्वा क्वपुर्भिर्विदधन्नमस्ते जीवे तयो मुक्तिपदे सधाय भक् पश्ये समे आध्ये परात्मनि त्वय्यपि मायि मायिने मायां वितत् एक्षितमात्मवैभवं ह्यहं कियानैश्चमिवाश्चिरग्नो अतक्षमस्वाच्युतमे रजो भुभो यजानतस्त्वत्पृथगीषमानिनः अजावले पान्धतमोऽन्तः चक्षुषः एषोऽनुकम्प्यो क्वाहं तमो महदहं कचराग्निवार्भो संवेष्टिताण्डघटसप्तवितस्तिकायः क्वे दृग्विधा विगणितान्तपराणुचर्या धात्वरोमविवरस्य च देमहित्वम् उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते किमस्तिनास्ति किमस्ति नास्ति व्यपदेशभूषितं तवास्ति कुशे कियदप्यनन्दक जगत्त्रयान्तो नारायणस्योधरनाभिनाळा निर्गतोझस् विधि वाङ्नवीमृषा किं त्वी स्वरत्वं नारायणस्त्वं न हि आत्मास्य धीसा किल नरभूजलायना नारायणोऽ नर भूजलायनात् तच्चापि सत्यं न तवैव माया तच्चेज्जलस्तम् तव सज्जगत्वभो किं मे न किं वा सुदृष्टं कृति मे किं नो सपद्येव पुनर्व्यधर्ष्ये अत्रैव मायादमनावतारे ह्यस्य प्रपञ्चस्य बहिः कृष्णस्य चान्तर्जठरे मायात्वमेव प्रकटीकृतं ते यस्य कुशाविधं सर्वं सात्मं भार्यथा तत्त्वय्यबी तत्सर्वं किमिदं मायया विना अद्यैव त्वद्धृतेस्य किं मम न ते माया प्रथमं ततो व्रज सुहृद्वत् सा समस्ता अपि तावन्तोऽसि चतुर्भुजास्तखिलैः साकं मयोपासितास्तावन्त्येव जगन्त्यभूस्तदमितम् ब्रह्मा त्वयं शिष्यते अजानतां त्वत्पधवीमनात्मन्यात्मात्मनाभासि विधत्य मायां सृष्टा विवाहं जगतो विधानयिव त्वमेषोऽन्त इव त्रिनेत्रः सुरे सृशिविश्वी स तथैव नृष्वपि तिर्यक्षुयातस्वपि ते जनस्य जन्मा सतां धुर्मतनिग्रहाय प्रभो विधातः सदनुग्रहाय च को वेत्ति भूमन् भगवन्परात्मन् योगेश्वरोतीर्भवतः त्रिलोक्याम् त्ववा कथं वा कथि विस्तारयन् क्रीडसि योगमायां तस्मादितं जगत शेषम् असत्स्वरूपं स्वप्नाभमस्तधिषणं पृथुक्दुःखं त्वय्येव नित्यसुखबोधतनावनन्ते माया तोद्यदपि एकस्त्वमात्मा पुरुषः पुराणस्सत्यस्वयं जयोतिरनन्त आद्यः नित्योऽक्षरोजस्रसुको निरञ्जनपूर्णोद्वयोमुक्तबुभातितोऽमृतः एवंविधं त्वां सकलात्मनामपि स्वात्मानम् आत्मतया विचक्षते गुर्वर्गलप्तोपनिषत्सुचक्षुषाम् एते तरदीव भवां नृताम्बुद्धिम् विजयनतां तेनैव जातं निखिलं प्रपञ्चितं ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवा भव यथा अज्ञानसंज्ञौ भवभन्त मोक्षौ धौनामनान्यौस्तरुधज्ञभावात् अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनि त्वामात्मनां परं मत्वा परमोत्मानमेव च आत्मा पुनर्बहिर्मृग्य अहोज्ञ जनदाज्ञता अन्तर्भवेनन्तभवन्तमेव ह्यतत्यजन्तो मृगयन्ति सन्तः असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमुयन्ति सन्तः अतापि ते देवपदाम्बुजद्वय प्रसादले सानुगृहीत एव हे जानाति तत्त्वं भगवन्महिं नो न चान्य एकोऽपि चिरं विचिन्वन् तदस्तु मेनातस भूरिभागो भवेत्र वाङ्त्र तु पातिरश्चां येनाकमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् अहोति धन्याव्रजगोरमण्यक्स्ततन्यामृतं पीतमतीव ते मुधा यासां विभोवत्सतरा वत्सतरा आत्मजात्मना यतृप्तयेत्याभिनचालमध्वराः अहो भाग्यम् अहो भाग्यं, भाग्यं नन्दोपव्रजौकशान् यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् येषां तु भाग्यमहि माश्च्युत तावतास्थान् एकादशैव हि वयं भत भूरि बाकाहा ये तदृशी कषक्षकैः असकृत् बिभामहान् सर्वादयोऽ्युर्युदजमध्वम् अमृतासवं ते तद्भूरिभाग्यमिकजन्म किमप्यटव्यां यत् गोकुलेऽपि कदमाङ्घ्रिरजोऽभिषेकं यज्जीवितं तु निखिलं भगवान् मुकुन्तस्थो अद्यापि यत्पदरचुतिं मृग्यमेव भवान् किं देवरातेति नः चेतो विश्वफलात्पलं त्वदपरं प्य यन्मुख्यते सद्वेषादिबभोतनापि सकुला त्वामेव देवापिता यद्धामार्तसुहृत्प्रियात्मधनय प्राणास्त्ययास्त्वदृकृते तावद्राघातयस्तेनास्तावद्घ्रारा गृहम् गृहम् तावन्मोहाङ्ग्रि निकटो यावत्कृष्णन ते जनाः प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले प्रपन्नजनतानन्दस्सन्दोहं प्रतितुं प्रभो जानन्त एव जानन्तु किं बहु प्रभो मनसो वपुषो वा वाचो वैभवं तव गोचरः अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वद्र त्वमेव जगतां नाथो जगदे तत्तवार्पितं श्रीकृष्णवृष्णिकुलपुष्करजोषधायिन् क्ष्मानिर्जरद्विजपसुधतिवृद्धिकरिन् उद्धर्म सार्वरहरतिराक्षस्रकल्पमार्गमर्हन् भगवन् नमस्ते श्रीशुक उवाच इत्यभिष्टो यभोमानं त्रिप्परिक्रम्यबाधयोः नत्वाभीष्टं जगत्दा स्वधामप्रत्यभद्यत ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् वत्सान् पुलिनमानिन्ये यथा पूर्वसखं स्वकं ये कस्मिन्नपि कृष्णमायागता राजं क्षणार्धं मे निरेर्भगाः किं किं अभीक्ष्णं विस्मृतात्मकम् ऊचुस्य सुकृदकृष्णं स्वागतं ते नैकोऽप्यभोजिकबल एही तस्साधु भुज्यत तथोकसनृषि केशोऽव्यवहृत्य बर्हप्रसूनवधातु विचित्रिधाङ्गः प्रमोद्धाम वेणुदलशृङ्रवोत्सवाड् वाड्यः वत्सान् गृणन्ननुकगीतपवित्रकीर्तिः हतो वितावयं वयं चास्मात् इति बालाव्रजे जगुः राजोवाच ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् यो भूतपूर्वस्थोकेशो स्वोद्भवेष्वपि कथ्यतां श्रीशुक उवाच सर्वेषामभिभूतानां नृपसात्मैव वल्लभः इतरे पत्यविद्धात्यास्तद्वल्लभत्तयैव हे तत्राजेन्द्र यथा स्नेहस्वस्वकात्मनिदेहिनां नततामपतालम्बे पुत्रपित्रगृहातिशो देहात्मबाधिनां पुंसामपि राजन्यसत्तमः देहोऽपि मम धा भाक् चेत् दर्ह्यसौनात्मवत्प्रियः यज्जीर्यत्यभिदेहेऽस्मिन् जीविता सा बलीयसी तस्मात् प्रियतमस्वात्मा सर्वेषामभिधेहिनां तदर्थमेव सकलं जगदे तच्चराचरं कृष्णमेनमवेहित्वम् आत्मानं अखिलात्मनां जगत् हिताय सोप्यत्र देहि वा भाति मायया वस्तुतो जानतामत्र कृष्णं स्थानु चरिष्णु भगवत् रूपमखिलं नान्यत्वस्फिक किञ्चन सर्वेषामपि वस्तूनां भावार्थो भवति तस्यापि भगवान् कृष्ण किमतद्वस्तु रूप्यथाम् समाश्रिता पदपल्लवप्लवम् महत्पदं पुण्ययशोमुरारेः भवाम्बुतेर्वत्सपदं परं पदं पदं पदं पधं यत् विभतां न तेषाम् एतत् सेतर्वमाख्यातं यत् पृष्टोऽहमिह त्वया यत् कौमारे हरिकृतं पौघण्टे परिकीर्तितं एकत् सुहृद्विचरितं मुरारे प्रगार्तनं सात्वलजेमनं च व्यक्तेतरत्रूपमजोर्वभेष्टवं शृण्वन् कृणन्नेति नरोकिलार्थान् एवं विकारैः कौमारैः कौमारं जगतुर्व्रजे निलायनैः सेतुभन्थे मर्कटोत्प्लवनादिभिः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्धे ब्रह्मस्तुतिर्नाम चतुर्दशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा सद्गुरुनाथ बहराजकी जय